श्रीहरये नमः अत द्वितीयोऽध्यायः श्रीशुक उवाचां गोविन्दभुजगुप्तायां द्वारवत्यां कुरु द्वहा अवाची नारथो भीष्णं कृष्णोपासनलालसहां को नु राजन् इन्द्रियवान्मुकुन्दचरणाम्बुजं न भजेत् सर्वतो मृत्युः उपास्यम् अमरोत्तमैः तमे गता तु वसुदेवो गृहागतम् अर्चितं सुखमासीनम् अभिवाद्य इदम् अब्रवीत् वसुदेव उवाच भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनां कृपणानां यथा पित्रो उत्तमश्लोकवर्त्मनां भूतानां देवचरितं दुःखाय च सुखाय च सुखायैव हि साधूनां द्वादृशामच्युतात्मनां भजन्ति येत् यथा देवां देवा अपि तथैव तान् चायवे कर्म शिवाः दीनवत्सलाः ब्रह्मंस्तथा बिभृच्छामो धर्मान् भागवतां स्तवान् यान् श्रुत्वा मुच्यते सर्वतो भयात् अहं किल प्रजार्तो भुवि मुक्तिधम् अपूजयं न मोक्षाय यथा विचित्रव्यसदाद् भवद्भिर्विश्वतो भयात् मुश्चेमह्यं जै जैसवाद्धा तथा नः श्री श्रीसुख उवाच राजन्येवं कृतः प्रश्नो वसुधेवेन धीमतः प्रीतस्तमाखदेवर्षिर्हरे संसारितो गुणैः नारद उवाच समयक् एतत् व्यवसितं भवता सात्वतर्षभां यत्पृच्छसे भागवतान् धर्मान्स्त्वं विश्वभावनान् श्रुतोनुपटितो ध्यात आदृतो वा अनुमोदितः सद्यः पुनानि देव देवविश्वद्रुहोभिः त्वया परमकल्याण पुण्यश्रवणकीर्तनः स्मारितो भगवानद्य देवो नारायणो मम अत्राभ्युदाहरन्तीमम् इतिहासं पुरातनम् आर्षभाणां च संवादं विधेहस्य महात्मनः प्रियव्रतो नाम सुतो मनोस्वायम्भुवस्य यः तस्याग्निद्रस्ततो नाभिरुषभस्तस्तुतसं मृतः तमागुर्वासुदेवांसं मोक्षधर्मविवक्षया अवतीर्णं सुतशतं तस्यातिस् ब्रह्मपारगं तेषां वै भरतो ज्येष्ठो नारायणपरायणः विख्यातं वर्षमेतत् स भुक्तभोकां त्यक्ते मां निर्गतस्तपसाहरीम् उपासीनस्तत्पदवीं लेभे वै जन्मभिस्त्रिभिः तेषां नवनवद्वीपपतयोष्य समन्ततः कर्मतन्त्रप्रणेतार एकाशीतिर्द्विजातयः न वा भवन्महाभागामुनयो ह्यर्थशंशिनः श्रमणा वातरचना आत्मविद्याविशारदाः कविर्हरिरन्तरिक्षप्रबुद्धः पिप्पलायनः आविर्होत्रोत धृश्मिलः समशक्करभाजनः तयेते भगवद्रूपं विश्वं सदसतात्मकम् आत्मनो व्यतिरेकेण पश्यन्तो व्यचरन्मह्येम् अव्याघतिष्टघतयः सुरसिद्धसाध्यं गन्तर्वयक्ष नरकिन्नरनागलोकान् मुक्ताश्रन्ति मुनिशारणभूतनाथ विद्याधरद्विजगवाम् भुवनानि कामं तये गतानि मे सत्रम् उभ जग्मोर्यदृच्चया वितायमानं ऋषिभि अजनाभे महात्मनः तान् दृष्ट्वा सूर्यसङ्काशान्महाभागवतान् नृपहा यजमानोऽग्नयो विप्रा सर्व एवपतस्थिरे विदेहस्तान् अभिप्रेत्य नारायणपरायणान् प्रीतः सम्भूजयान् चक्रे आसनस्तान् यथार्हतः त्वान् रोचमानान् स्वरुचा ब्रह्मपुत्रोपमानव पप्र परमप्रीतः प्रश्रया वनतो नृपः विदेह उवाच मन्ये भगवतः साक्षात् पार्षदान् गोमधुत्विषखान् विष्णोर्भूतानि लोकानां पावनाय चरन्ति हे दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरः तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् अत आत्यन्तिकं क्षेमं वृच्छामो भवदो न गाः संसारेऽस्मिन् क्षणार्तोऽभिः सत्सङ्गजेभतिर्नृणाम् धर्मान् भागवतान् ब्रूतयति न श्रुते क्षमं यै प्रसन्नः प्रपन्नाय ध्यास्यति आत्मानमभ्यजहा श्रीनारत उवाच एवं ते निमिना पृष्टा वसुधेव महात्तमाः प्रतिभूज्या ब्रुवन् प्रीत्या स सतस्यत्विजं कविरुवाच मन्ये कुतश्चिद्भयमश्च्युतस्य पादाम्बुजोपासनमत्र नित्यं उद्विग्नबुद्धे असदात्मभावात् विश्वात्मना यत्र निवर्तते भीहे ये वै भगवतो प्रोक्तावुपयाहि आत्मलब्धये अञ्जः पुंसामभिदुषां विद्धि भागवतान् हितान् यानास्ताय नरो राजन्न भ्रमाद्येत कर्हि चेत् तावन्नि मिल्यवानेत् न कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा अनुश्रुतस्वभावात् करोति यद्यत् सकलं परस्मै नारायणायेति समर्पयेत् भयं द्वितीयापि निवेशतः स्यात् ईशातभेदस्य विपर्ययो स्मृतिः तन्माययातो बुध आभजे तं भक्त्यैक एषं गुरुदेवतात्मा अविद्यामानोऽप्यवभाति हि द्वयोः द्या दुर्दिया स्वप्नमनोरथो शुण्वन सुभद्राणी रहा चयानी लोके गीतानि नामानि ददर्तकानि गायन् विलज्जो विचरेतसङ्गः एवं व्रतस्वप्रियनामकीर्त्यां जातानुरागो धृतचित्त उच्चैः कं वायुमग्निं सलिलं महींश्च ज्योतींषि सत्त्वानि दिशो द्रुमाधीन् सरित्समुद्रांश्च हरेशरीरं यत्किञ्च भूतं प्रणमेतनन्यः भक्तिपरे सानुभवो विरक्ते अन्यत्र सैक्षत्रिकयेककालः प्रपत्यमानस्योस्तुष्टे स्पोष्ठे क्षोतपायोनुगासम् इत्यच्युताग्रें भजतो नवृत्या भक्तिर्विरक्तिर्भगवत्प्रबोधहा भवन्ति वै भागवतस्य राजन् ततः परां शान्तिमुपैति साक्षात् राजोर्वाच अथ भागवतं भ्रूत यत् धर्मो यादृशो नृणान् यथाचरति यद्भ्रूते यैर्लिङ्गैर्भगवत्प्रियः हरिरुवाच सर्वभूतेषु यः पश्चेद्भगवद्भावमात्मनः भूतानि भगवतन् आत्मन्येष भागवतोत्तमः ईश्वरे ददती नेषु बालिसेषु द्विषत्सु श्रीकृपा पेषायः करोति स मध्यमः अर्चायामेव हरये पूजां यः न तद्भक्तेषु चान्येषु स भक्तप्राकृतस्मृतः गृहीत्वा प्रीधियैरर्तान् यो न द्वेष्टि न हृष्यति विष्णोर्मायामिदं पश्यन् स वै भागवतोत्तमः देहेन्द्रियप्राणमनो कृश्रैः संसारधर्मै अभिमुह्यमानः समृद्ध्यो हरेर्भागवतः प्रधानः न कामकर्मबीजानां यस्य चेतसि सम्भवः वासुदेवैकनिलयः स वै भागवतोत्तमः न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः सज्जतेऽस्मिन् अहं न यः स्वपर इति वित्तेषु आत्मनि वा भितान् त्रिभुवनविभवहेतवेप्यकुण्ठ स्मृतिरजितात्मशुरादिभिर्विमृग्या न चलति भगवत्पादारविन्दात्लवन् भगवत उरुविक्रमाङ्घ्रिसागां नगमणिचन्द्रिकया निरस्ततापे हृदिगतमुपसीततां पुनः स प्रभवति चन्द्रयि भोतितेर्कतापः विसृजति हृदयं न यस्य साक्षात् हरिरभसाभिहितोऽप्यघौघनाशः प्रणयरसनया धृताङ्क्रिभद्म स भवति प्रधान उक्तः इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा सद्गुरुनादमहराज की जय